अथ षडधिकशततमः सर्गः सारथिः सरथम् हृष्टः परसैन्यप्रदर्शनम् गन्धर्वनगराकारम् युद्धोपकरणैः पूर्णम् पताका ध्वजमालिनम् ग्रसन्तमिव चाकाशम् प्रणाशम् परसैन्याणाम् स्वसैन्यस्य प्रहर्षणम् रावणस्य रथम् क्षिप्रम् चोदयामाससारथिः तमापतन्तम् सहसा स्वनवन्तम् महाध्वजम् रथम् राक्षस राजस्य नरराजोददर्शः कृष्णवाजिसमायुक्तम् युक्तम् रौद्रेण वर्चसा दीप्यमानमिवाकाशे विमानम् सूर्यवर्चसम् तडित् पताकागहनम् दर्शितेन्द्रायुधप्रभम् शरधारा विमुञ्चन्तम् धाराधरमिवाम्बुलम् धारा स दृष्ट्वा मेघसङ्काशमापतन्तम् रथम् रिपोः गिरेर्वज्राभिमृष्टस्य दीर्य तः सदृशस्वनम् विस्फारयन् वै वेगेन बालचन्द्रानतम् धनुः उवाच मातलिम् रामः सहस्राक्षस्य मातले पश्य संरब्धमापतन्तम् रथम् रिपोः यथापसव्यम् पतता वेगेन महता पुनः समरेऽहम् तुमात्मानम् तथा नेन कृता मतिः तदप्रमादमातिष्ठ प्रत्युद्गच्छ रथम् रिपोः विध्वंसयितुमिच्छामि वायुर्मेघमिवोत्थितम् अविक्लवमसम्भ्रान्तमव्यग्रहृदये क्षणम् रश्मिसञ्चारणयतम् प्रचोदयरथम् ध्रुतम् कामम् न त्वम् समाधेयः पुरम् दररथोचितः युयुत्सुरहमेकाग्रः स्मारये त्वाम् न शिक्षये रामस्य तेन वाक्येन मातलिः प्रचोदयामास रथम् सुरसारथिरुत्तमः अपसव्यम् ततः कुर्वन् रावणस्य महारथम् चक्रसंभूत रजसा रावणम् व्यवधूनयत् रतः क्रुद्धो दश ग्रीवस्ताम्र विस्फारिते क्षणः रथप्रतिमुखम् रामो धैर्यम् रोषेण लम्भयन् जग्राहसु महावेगमैन्द्रम् युधि शरासनम् तदुपोढुम् महद्युद्धमन्योन्यवधकाङ्क्षिणोः परस्पराभिमुखयोर्दृप्तयोरिव सिंहयोः ततो देवाः स गन्धर्वाः सिद्धाश्च परमर्षयः समेयुर्द्वैरथम् द्रष्टुम् रावणक्षयकाङ्क्षिणः समुत्पेतुरथोत्पाता दारुणारो महर्षणाः रावणस्य विनाशाय राघवस्योदयाय ववर्षरुधिरम् देवो रावणस्य रथोपरि वातामण्डलिनस्तीव्रा व्यपसव्यम् प्रचक्रमुः महद्गृध्रकुलम् चास्य भ्रममानं नभस्थले येन येन रथो तेन तेन, तेन प्रधावति सन्ध्यया चावृतालङ्का जपा पुष्पनिकाशया। दृश्यते सम्प्रदीप्तेव दिवसेऽपि वसुन्धरा स निर्घाता महोल्काश्च सम्प्रपेतुम् महास्वनाः विषादयम्स्ते रक्षांसि रावणस्य तदाहिताः रावणश्च यतस्तत्र प्रचचाल वसुन्धरा रक्षसाम् च प्रहरताम् गृहीता इव बाहवः ताम्राः पीताः सिता श्वेताः पतिताः सूर्यरश्मयः दृश्यन्ते रावणस्याग्रे पर्वतस्येव धातवः गृध्रैरनुगताश्चास्यममन्त्योज्ज्वलनम् मुखैः प्रणे दुर्मुखमीक्षन्त्यः संरब्धमशिवम् शिवाः प्रतिकूलम् बवौ वायूरणे तस्य राक्षस कुर्वन् दृष्टिविलोपनम् निपेतुरिन्द्राशनयः सैन्ये चास्य समन्ततः दुर्विषह्यस्वराघोरा विना जलधरोदयम् दिशश्च प्रदिशः सर्वा बभूवुस्तिमिरावृताः पांसुवर्षेण महता दुर्दर्शम् च नभोऽभवत् कुर्वत्यः कलहम् घोरम् प्रति निपेतुश्शतशस्तत्र दारुणा दारुणा रुताः जघनेलिंगाच नेत्रेभ्योश्रूण सतत मुचुस्तु्यमन वारी चें प्रकारा बहव सपाता भयावहा रावण सेनाशा दारुण सजिरामता सौम्या शिवा च बभूबुर्जयशंसीनि प्रादुर्भूतानि सर्वशः निमित्तानीह सौम्यानि राघवस्वजयाय वै दृष्ट्वा परमसंहृष्टो हतम् मेने च ततो निरीक्ष्यात्मगतानि राघवोरणे निमित्तानि निमित्तकोविदः जगामहर्षम् च पराम् च शे श्रीमदरायणे वाक्ये युद्धकांडे षडिकततम सर्ग